गजाननं भूतकणादिसेवितं कपित्तजम्बूफलसारभक्षितम् उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् नन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते गिरिवरविं जशिनोदिनि वासिनि विष्णुविलासिनि जिष्णुनुते भगवति लेशिति कण्ठकुटुम्बिनि मूरिकुटुम्बिनि मूरिकृते जय जय गे महिषासुरमर्दिनि कपर्दी शैल सुते जय जय ये महिषा सुर मर्ण रम्यक पर्दी शैलसुते सुरवर वर्षि दुर्धर दर्शि दुर्मुख मर्षि हर्षरतेभुवन पोषि शंकरोषि घोषरते तनुजनी रोशिनी दिधि सुतरोमद शोषिण सिंधुसुते जय जय ये महिषासुरमर् रम्यक पर्नी शैलसुते जय जय ये महिषासुरम रम्यक पर्वनी शैलसुपे जगतं सरते बकदम् बह्वनप्रियवासिनिकासरपे शिखरशिरोमणितुङ्गहिमानय श्रुतनिगालय जगते मधु मधुरे मधु कीड पद् निश्च सुते जय जय गे महिषा सुरपदिन यतप ता दिनिशुते महिशत खण्डवि Shasura Maddini, Samyata Paddini, Shaita Suta Shasura Maddini, Samyata Paddini, Shaita Suta शत्रुवदोदित उद्धरणे जनक्षिभ्रते चतुरविचारग्वीण महाशिव भूतकृत सुरवर्तिनिं व्यतपर्दिनि शरीरसु अयि शरणागतवैरिवधु रवद्धिनी रवुम्यदपटिल्गें श्रैल सूथ्षे जगुं मात्र निराकृत उम्भवितोचरदुं रजते समरविशोषित शोढित बीज समुद्भव शोणित बीजनते शिव शिव शुम्भनि शुम् पिशङ्गनिषङ्गसद्भटशृगता भटुके कृतचतुरङ्गहुरङ्गद्भटुके जय जय हे महिषासुरमर्दिनि सम्यकपर्दिनि शैरसुते लुष बसुषब जय जय जये जय जय शब्द परस्तुति परविश्वनुते भण भणभिन्दि विधिं कृतनुपुर सिञ्चित मोदित भूतपदे नटितनटाब्धनटीनटनाय गनाटितनाट्यसुपानरदे यय गे मगि शुरमति नि य कपदिनी शैलसुते यय जय गे मगी शासुरमति निपदिनि शैलते अय सुमन सुमन सुमन सुमन सुमनो भरकाते कृत रजनी रजनी रजनी रजनी रजनी करपत्रभृते सुनयन वि भ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते जय जय के महिषासुरमदि रम्य कपदिनि शैलसुते शही सूते ितमहाव मल्लमल्लित मल्लित गल्लिक अल्ले विरचित वल्लिक पल्लित मल्लिकीलिक बिल्लिके सितकृत पुल्लि समुल्लित अल्ल पल्लव सललिते जय, जय, जय, जय। सुरमदिनि रम्य कपदिनि कैलसुते यय जय हे महिषा रम्य कपदिनि कैलसुते अविरल गण्ड गलन् मदमे दुर् मदमतङ्गज भूषण ऊतकला निधि ऊपयोनिधि राजसुते अयि सुधी जनलाल समानस मोहनमन्वतराजसुते जय जयये महिषासुरमर्तिनि रम्यकपतिनि चैलसुते जय जय हे सुरमर्दिनिक्षं यकपर्दिनिक्षैरसुते मल कोमल कान्ति कला कलिता मला पाले सकल विलसमला निय क्रम चल दिनै छैन सुते जग जय के मनिषा सुर मति नि रङ्ग कपदि नै छैन सुते कर मुरा नीरव बेजित कूजित रजित कुकिल मञ्जु मते निलि कपिन्द बनो कर कुञ्जित रञ्जित शैल नि कुञ्ज बरी गण स गुण संपद के नित जय जय खे बगी सुर मदिन रंग पद दिन शैल जय जय खे बगिशास मदिन रंग खप दिन कुल विचित्र मयू तिरस्कृत चन्द्र रुचे प्रणत सुरासुर मौल्य मणिषपुर संशुर सन्दीक चन्द्र रुचे गीत कनकाल मौलिगो हीर पर कुञ्जर कुम्भुजे जय जय ये मगिषा जपति कैल सुते जय जय य महिला सुर माति जपति कैल सुते विजित सखस करै क सखस्र कै ंगर तारक सूर सुते सूरत समाधि समान समाधि समाधि समाधि सूरत रते जय जय ये मगीषा सुर रम्य कप दिन सुते जय जय गे मगेशसुरपतिन चई सुते कमलं करुणानि निलये परिवस्यति यो नु बिधं सजिवे अयि कमले कमलानिलये कमलानिलये स कथं न भवेत् तव पदमे शासु भ्रमतिनि रं यतपदिनि शैलसुते जय जय य भगिषासु भ्रमतिनि रं यतपदिनि शैलसुते कलकलसकलसिन्धुजलैरनु सिंहिनुते गुणरङ्गभुवम् भजति सखिं न शचीकुचकुम्भ तटी परिरम्बसुखानुभवं तप चरणं शरणं करवाणि दता मरवाणि निवासि शिवं जय जय हे महिषा सुभ्रमदिनि रम्यकपदिनि शीलसुते जय जय ज महिषा सुगमदिनि रम्यकपदिनि शीलसुते व विमले दुकुलं वदने गुमलं दु सकलं ननुपूदयते किमु पुरुहूतपुरेन्दुमुखे सुमुखी विरसौ विमुखी भी क्रियते मम तु मतं शिवरामदने भवती कृपया किमुत क्रियते जय जय गे मगिषासुरमादिनि रम्य कपति निशैलसुते जय जय गे मगिषासुरमादिनि रम्य कपतिनि शैलसुते अयि मयि दीनदयानुदय कृपयैव त्वया भवितं य भूमे जगदो जननी कृपयासी यहादुचित नमच्यु रुता दुर्ता पम पुते पा जय जय ये महिषा सुरमी रम्य कपतिशसुते जय जय गे मिशास म दिन रम्य गति लसुते